अथ एकादशोऽध्यायः अर्जुन उवाच मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम भवाप्ययो भूतानां श्रुतौ विस्तरशोमया त्वत्तत्कमलपत्राक्ष माहात्म्यमपि चाव्ययम् एवमेतद्यथाथत्वम् आत्मानं परमेश्वर द्रष्टुमिच्छामि ते रूपम् ऐश्वरं पुरुषोत्तम मन्यसे यदि तच्छक्यम् मया द्रष्टुमिति प्रभो योगेश्वर ततो मे दर्शयात्मानमव्ययम् श्रीभगवानुवाच पश्य मे पार्थरूपाणि शतशोतसहस्रशः नानाविधानि दिव्यानि नानावर्णाकृतीनि च पश्यादित्यान् वसून् रुद्रान् अश्विनो मरुतस्तथा बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत इहैकस्थं जगत्कृष्णम् पश्याद्य सचराचरम् मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि न मां शक्यसे द्रष्टुम् अनेनैव स्वचक्षुषा दिव्यं ददामि ते चक्षुः पश्य मे सञ्जय उवाच एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः दर्शयामास पार्थाय परमं रूपमैश्वरम् अनेकवक्त्रनयनम् अनेकाद्भुतदर्शनम् अनेकदिव्याभरणम् दिव्याने दिव्यानेकोद्यतायुधम् दिव्यमाल्याम्बरधरम् दिव्यगन्धानुलेपनम् सर्वाश्चर्यमयं देवम् अनन्तं विश्वतो मुखम् दिवि सूर्यसहस्रस्य यदि भासदृशी सा स्यात् भासस्तस्य महात्मनः तत्रैकस्तम् जगत्कृत्स्नम् प्रविभक्तमनेकधा अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ततः स पृष्टरो माधनञ्जयः प्रणम्य शिरसा देवम् कृताञ्जलिरभाषत अर्जुन उवाच पश्यामि देवांस्तव देवदेः सर्वंस्तता भूतविशेषसङ्घा ब्रह्माणमीशं कमलासनस्थम् ऋषिंश्च सर्वान् पुरगांश्च दिव्या अनेकबाहोदरवत्र नेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् नान्तं न मध्यं पश्यामि विश्वेश्वर विश्वरूप किरीटिनं गदिनं चक्रिणं च तेजो राशिं सर्वतो दीप्तिमन्तम् पश्यामि त्वां दुर्निरीक्षं समन्तात् दीप्तानलार्कद्युतिमप्रमेयं त्वमक्षरं परमं वेदितव्यम् त्वमस्य विश्वस्य परं निधानम् त्वमव्ययः शाश्वतधर्मगुप्ता सनातनस्त्वं पुरुषो मतोमे मे अनादिमध्यन्तमनन्तवीर्यम् अनन्तबाहुं शशिसूर्यनेत्रम् पश्यामि त्वां द्विप्तहुताशवक्त्रम् स्वतेजसा विश्वमिदं तपन्तम् द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः दृष्ट्वाद्भुतं रूपमुग्रन्तवेदम् लोकत्रयम् प्रव्यथितं महात्मन् अमीहि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृह्णन्ति स्वस्तीत्युक्त्वा महर्षिः सिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः रुद्रादित्या वसवो ये च साध्याः विश्वेष्विनौ मरुतश्चोष्मपाश्च गन्धर्वयक्षा महाबाहो बहुबाहोरुपादम् बहोदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यतितास्तथाहम् नभस्पृशं दीप्तविशालनेत्रम् दृष्ट्वा हि धृतिं न विन्दामि शमं च विष्णो दष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि दिशो न जाने न च शर्म प्रसीद देवेश जगन्निवास अमे च धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः वक्त्राणि ते त्वरमाणाविशन्ति दंष्ट्राकरालानि भयानकानि केचिद्विलग्नादशान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमङ्गैः यथा नदीनां बहवोम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति तथा तवामी नरलोकवीराः विशन्ति वक्त्राण्यभिविज्वलन्ति यथा प्रदीप्तं ज्वलनं पतंगाः। पिशन्ति नाशाय समृद्धवेगाः तथैव नाशाय विशन्ति लोकाः तवापि वक्त्राणि समृद्धवेगाः ले लिह्य सेग्रसमानः समन्तात् लोकान् समग्रान् वदनैर्जलब्धिः वासस्तभोग्राः प्रतपन्ति विष्णो आख्याहिमेको भवानुग्ररूपः नमोऽस्तु ते देववरप्रसीद विज्ञातुमिच्छामि भवन्तमद्यं न हि प्रजानामि तव प्रवृत्तिम् श्रीभगवानुवाच कालोऽस्मि लोकक्षयकृत्प्रवृद्धः लोकान् समाहर्तुमिह सर्वे ये वस्ति ताः प्रत्यनीकेषु योधाः तस्मात्त्वमुत्तिष्ठयशो लभस्व जित्वा मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् द्रोणञ्च भीष्मं च जयध्रतं च कर्णं तथान्यानपि योधवीरा मया स्वं जहिमा व्यतिष्ठ युध्यस्वजेता शिरणे सपत्ना सञ्जय उवाच एतच्छ्रुत्वा वचनम् केशवस्य कृताञ्जलिरुवेपमानः नमस्कृत्वा भूय एवाह कृष्णम् स गद्गदम् अर्जुन उवाच स्थाने हृषी जगत्प्रहृष्यत्यनुरज्यते च रक्षांसि भीतानि दिशो द्रवन्ति सर्वे न मस्यन्ति च सिद्धसङ्घाः कस्माच्च ते नन्नमेरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे अनन्तदेवेश जगन्निवास त्वमक्षरं सदसत् तत्परं यद् त्वमादिदेवः पुरुषः पुराणः त्वमस्य विश्वस्य परं निधानम् वेत्तासि वेद्यं च परं च धाम त्वया ततं शाङ्कः प्रजापतिस्त्वं प्रपितामहश्च नमो नमस्तेस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते नमः पुरस्तात् अथ पृष्ठतस्ते नमोऽस्तु ते सर्वत सर्वं समाप्नोषि ततोऽसि सर्वः सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति अजानता महिमानं तवेदम् मया प्रमादात् प्रणयेन वापि यच्चावः सार्थमसत्रुतोऽसि विहारशय्यासन भोजनेषु एकोऽ वाप्यच्युत तत्समक्षम् तत्क्षामये त्वामहमप्रमेयम् पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीया न त्वत्समोऽस्त्यभ्यधिकः लोकत्रयेप्य प्रतिमप्रभाव तस्मत्प्रणम्य प्रणिधाय कायम् प्रसादये त्वाम् अहमीशमीड्यम् पितेव भयेन च प्रव्यथितम् मनो मे तदेव मे दर्शय देवरूपम् प्रसीदेवेश जगन्निवास किरीटिनम् गदिनञ्चक्रहस्तम् इच्छामि तथैव तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते श्रीभगवानुवाच मया प्रसन्नेन तवार्जुनेदम् रूपं परं दर्शितमात्मयोग तेजोमयं विश्वमनन्तमाद्यं यन्मे न वेदयज्ञाध्ययनैर्न दानैः न एवं रूपशक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरु प्रवीर मा ते दृष्ट्वा रूपं घोरमि व्यपेतभिप्रीतमना पुनस्त्वम् तदेव मे रूपमिदं प्रपश्य सञ्जय उवाच इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकम् रूपं दर्शयामास भूयः आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्य अर्जुन उवाच दृष्ट्वेदं मानुषं रूपम् तव सौम्यं जनार्दन इदानीमस्मि संवृत्तः सचेताः प्रकृतिम् गतः श्रीभगवानुवाच सुदुर्दर्शमिदं रूपम् दृष्टवानसि यन्म देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः नाहं वेदैर्न तपसा न दानेन न तेज्यया शक्यम् एवंविधो द्रष्टुम् दृष्टवानसि मां यथा भक्त्या त्वनन्यया अहम् एवंविधोऽर्जुन ज्ञातुं द्रष्टुञ्च तत्त्वेन प्रवेष्टुञ्च परं तप मत्कर्म कृपरमः मद्भक्तःसङ्गवर्जितः मत निर्वैरः सर्वभूतेषु यः ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्याया योगशास्त्रे श्रीकृष्णार्जुनसंवादे विश्वरूपदर्शनयोगो नाम एकादशोऽध्यायः